नारदपुराणं पूर्वार्थम् अध्यायं नैन्टीन् सनक उवाच अन्यद्व्रतं प्रवक्ष्यामि ध्वजारोपणसंज्ञ सर्वपापहरं पुण्यं विष्णुप्रीणनकारणं यः कुर्याद्विष्णुभवने ध्वजारोपणमुत्तमं सम्पूज्यते विघ्निञ्चाध्यै किमन्यायद्बहुभाषितैः हेमभारसहस्रम् तु यो ददादिकुटुम्बिने तद्फलम् तुल्यमात्रम् तुल्यं ध्वजारोपणतुल्यं स्यात् गङ्गास्नानमनुत्तमम् अथवा तुलसीसेवा शिवलिङ्गप्रपूजनम् अहो पूर्वमहो पूर्वमहो पूर्वमिदं द्विज सर्वपापकरं कर्म ध्वजागोपणसंहितं सन्धिवैयानि कार्याणि ध्वजारोपणकर्मणि तानि सर्वाणि वक्ष्यामि शृणुष्व गदतो मम कार्तिकस्य सुधे पक्षे दशम्यां प्रयदो नरः स्नानं कुर्यात् प्रयत्नेन दन्तधावनपूर्वकम् एकाशी ब्रह्मचारी च स्वपेन्नारायणं स्मरन् दौदाम्बरधरशुद्धो विप्रो नारायणाग्रदः तदप्रादसमुधाय स्नात्वा चम्य यथाविधि नित्यकर्माणि निर्वर्त्य पश्चाद्विष्णुं समर्चयेद् चतुर्भिर्ब्राह्मणैः सार्धं कृत्वा च स्वस्ति वाचनं नान्दी श्राद्धं प्रकुर्वीदध्वजारोपणकर्मणि ध्वजस्तम्भो च गायत्र्या प्रोक्षयेद्वस्त्रसंयुतौ सूर्यं च वैनतेयं च हिमांशुं तत्परोर्चयेद दातारं च विधातारं पूजयेद्जदण्डके हरिद्राक्षदगन्धाद्यै शुक्लपुष्पैर्विशेषतः तदो गोचर्ममात्रकं तुस्तण्डिलं चोपलिप्य वै आधायाङ्गीं स्वगृह्योत्याह्याज्यभागाधिगं क्रमाद जुहुयात्पायसं चैव साज्यमष्टोत्तरं शतं प्रथमं पौरुषं सूक्तं विष्णोर्नुकमीरावतीं ततश्च वैनते याय स्वाहेत्यष्टाकुदिष्ट सोमोद्धेनु मुदुत्यम् च जुहुया च तदोद्विज सौरमन्त्रान् जपेत्तत्र शान्तिसूक्तानि शक्तितः रात्रौ जागरणम् कुर्यादुपकण्ठम् हरे शुचहो तदप्रादः समुद्धाय गन्धपुष्पादिभिर्देवमर्चयेत्पूर्ववत्क्रमाद ततो मङ्गलवाद्यैश्च सूक्तपाठैश्च शौभनम् नृत्यैश्च रथोत्रपठनैर्नयेद्विष्णवालयेद्ध्वजम् देवस्य द्वारदेशे वा शिखरे वा स्थापयेद्विप्रध्वजम् सस्तम्भ संयुतं गन्धपुष्पाकरक्षतैर्गन्धपुष्पाकक्षतैर्देवं धूपदीपैर्मनोहरैः भक्षय भोज्यादिसंयुक्तैर्नैवेद्यैश्च हरिं यजेद एवं देवालये स्थाप्य शोभनं प्रदक्षिणमनुव्रज स्तोत्रमेदुदूरयेद नमस्ते पुण्डरीकाक्ष नमस्ते विश्वभावना नमस्ते स्तुलशि केशमहापुरुषपूर्वजा जनेदमखिलं जातं यत्र सर्वं प्रतिष्ठितं लयमेष्यदि यत्रैवं तं प्रपन्नोऽस्मि केशवम् न जानन्ति परं भावं यस्य बा स्यादयसुराः योगिनोऽयं न पश्यन्ति तं वन्दं ज्ञानरूपिणम् अन्तरिक्षम् तु यन्नाभिर्द्यौ मूर्धा यस्य चैव हि पादो बुध्यस्य पृथिवी तं वन्दे विश्वरूपिणम् यस्य श्रोत्रयदिश सर्व यच्चक्षुर्दिन कृच्छसि हृत्साम यजुषी येन तं वन्दे ब्रह्मरूपिणं यन्मुखाद्ब्राह्मणा जादा यद्वाहोरभवन्नृपाः वैश्या यस्यो रुदो जादा पद्भ्यां शूद्रो व्यजायत मायासङ्गममात्रेण वदन्ति पुरुषं त्वजं स्वभावविमलं शुद्धं निर्विकारं निरञ्जनम् क्षीरब्धिशायिनम् देवमनन्तमपराजितम् सद्भक्तवत्सलम् विष्णुम् भक्त्रिगम्यम् नमाम्यहम् पृथिव्यादीनि भूतानि तन्मात्राणीन्द्रियाणि च सूक्ष्मा सूक्ष्माणि येनासंस्तम् वन्दे सर्वतोमुखम् यद्ब्रह्म परमं धाम सर्वलोकोत्तमोत्तमं निर्गुणं परमं सूक्ष्मं प्रणतोऽस्ति पुनः पुनः अविकारमजं शुद्धं सर्वतो बाहुमीश्वरं यमामनन्ति योगीन्द्रा सर्वकारणकारणं यो देवास् सर्वभूतानाम् अन्तरात्मा जगन्मयः निर्गुणपरमात्मा च समे विष्णुप्रसीदतु हृदयस्थोऽभिदूरस्थो मायामोहितात्मनां ज्ञानिनां सर्वगोयस्तु समे विष्णुप्रसीदतु चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च पूयते च पुनर्द्वाभ्यां समे विष्णुप्रसीदतु ज्ञानिनां कर्मिणां चैव तद्धा भक्तिमदां नृणं गदि दादापि स्वमृगसमे विष्णुप्रसीदतु जगद्धितार्थं ये देहा ध्रियन्ते लीलया हरेः तान् अर्चयन्ति विबुधाः समे विष्णुप्रसीदतु यमामनन्दि यमामनन्दिवै सन्दत्सचिदानन्दविग्रहं निर्गुणं च गुणाधारं समे विष्णुप्रसीदतु यदि स्तुत्वा न मेद्विष्णुं ब्राह्मणांश्च प्रपूजयेद् आचार्यं पूजयेत् पश्चाद्दक्षिणाच्छादनादिभिः ब्राह्मणान् भोजयेच्छाक्रिया भक्तिभावसमन्वितः पुत्र, पुत्रमित्रकलत्राद्यै स्वयं च सह बन्धुभिः कुर्वेद पारणं विप्रनारायणपरायणः यस्त्वेदत्कर्म कुर्वेदध्वजारोपणमुत्तमं तस्य पुण्यफलं वक्ष्ये शृणुष्व सुसमाहितः पडो ध्वजस्य विप्रेन्द्र यावत् चलति वायुना तावन्ति पापजालानि नश्यन्त्येवनसंशयः महापादकयुक्तो वा युक्तो वा सर्वपादकैः ध्वजं विष्णुगृहे कृत्वा मुच्यते सर्वपादकैः यावद्दिनानि तिष्ठे विष्णुगृहे द्विजा तावद्युगसहस्राणि हरिसारूप्यमश्नुते आरोपितं ध्वजं दृष्ट्वा ये भिनन्दन्ति धार्मिकाः तेऽपि सर्वे प्रमुच्यन्ते महापादकोटिभिः आरोपितो ध्वजो विष्णुगृहे धुन्वन्पडं स्वकं कर्तुः सर्वाणि पापानि धुनोदिनिमिषार्धतः यस्त्वारोप्य गृहे विष्णोर्ध्वजं नित्यमुपाचरेद स देवयानेन दिवं यादीव सुमतिर्नृपः इति श्रीबृहन्नारदपुराणे पूर्वभागे प्रथमपादे प्रदाख्याने ध्वजारोपणः नाम इोनविंशोऽध्यायः ओम्